वैशम्पायन उवाच सह देवोऽपि गोपानां कृत्वा वेषमनुत्तमम् भाषां चैषां समास्थाय विराटमुपयादथा गोष्ठमासाद्यतिष्ठन्तं भवनस्य समीपतः राजाथ दृष्ट्वा पुरुषान् प्राहिणो जात विस्मयः तमायान्तमभिप्रेक्ष्य भ्राजमानं समुपस्थाय वैराजा पप्रच्छकुरुनन्दनम् मित्रतापनम् ततो ब्रवीन्मेघमहौघनिस्वनः वैश्योऽस्मिनाम् नाह वरिष्टने निर्गोसङ्ख्यासं कुरु कुङ्गवानाम् वस्तुम् त्वयीच्छामि विशाम् वरिष्ठा तान् राजसिंहान् न हि वेद् निपार्थान् न शक्यते जीवितुमप्यकर्मणा न च त्वदन्यो मम रोचते नृपः विराटौ उवाच त्वं ब्राह्मणो यदि वा क्षत्रियोऽसि समुद्रनेमीश्वररूपवानसि आचक्ष्मेतत्त्वममित्रकर्षना न वैषिकर्मत्वयि विद्यते क्षमम् कस्यासि राज्ञो विषयादिहागतः किंवापि शिल्पं तव विद्यते कथं त्वमस्मासु निवस्य से सदा वदस्व किञ्चापि तवेह वेतनं सह देवौवाच पञ्चानां पाण्डुपुत्राणां ज्येष्ठो भ्राता युधिष्ठिरः तस्याष्टशतसाहस्रा गवां वर्गाः शतं शतम् अपरे शतसाहस्राद्विस्तावन्तस्तथापरेख्या संवैतन्ति पालेति मां विदुः भूतम् भव्यम् भविष्यञ्च यच्च सङ्ख्यागतम् गवां न मेऽस्य विदितम् किञ्चित् समन्तादशयोजनम् गुणासु विदिता ह्यासन् मम महात्मनः असकृत्समया तुष्ट युधिष्ठिरः क्षिप्रम् च गावो बहुला भवन्ति नता तैस्तैरुपायं विदितं ममैतदेतानि शिल्पानि मयि स्थितानि वृषभांश्चापि जानामि राजन्पूजितलक्षणान् येषां मूत्रमुपाघ्राया अपि वन्ध्या प्रसूयते शतं सहस्राणि समाहितानि सवर्णवर्णस्य मिमिश्रितान्गुणैः पशून् सपालान् भवते ददाम्यहं दा तदा सया मे पशवो भवन्त्यः वैशम्पायनौ वाच तथा स राज्ञो विदितो विषाम्पतेरुवास तत्रैव सुखं नरोत्तमः न चैन मे विदुखत च न प्राद तस्म